अथर्वेदे तृतीयाष्टके चतुर्थोऽध्यायः ओमिनन्ति मालिनो न धीराः व्रता देवानाम् प्रथमा ध्रुवाणी न रोदसी अद्रुहा आवेद्याभिर्मपर्वतानि न मे एतस्थिवांसाः एको अचलम् बिभर्त्यतम् वर्षिष्ठमुपगाम आहुः तिस्रो महिरुपरास्तस्फुरत्यागुहाद्वे निहिते दर्श्येकाः त्रिपादस्यो वृषभो विश्वरूप उत त्रिधा पुरुधः प्रजावान् त्र्यनीकः पत्यते माहिना वान्सरे एतो धा वृषभः शश्वतीनाम् अबीक आसाम् पदवीरबोध्यादित्यानामह्वे चारु नाम आपश्चिदस्मा अरमन्त देवेः पृथग््रजन्तेः देव परिषेमवृञ्जन् त्रिषधस्थासिन्धवस्त्रिः कवीनाभुत त्रिमाता विदधेषु सम्राट् ऋतावलीर्योषणास्ति शिश्रोऽप्यास्त्रिराधिवो विदधे पत्यमानाः त्रिरादिवः सवितर्वार्याणि दिवेदिभासु अत्रिर्नो अह्नाः त्रिधातु राय आसु वापसो निभगत्रादर्धिषणे सातये धाः त्रिराधिवः सवितासोषमीति राजानामित्रावरुणासु पाणी आपश्चिदस्य रोदसी चितुर्वीरत्नम् यक्षन्त स पितुः समाया त्रिरुत्तमा दूडशा आरोचनानित्रयो राजन्त्यसुरस्य वीराः रतावा न इशिरा दूलभाः सस्त्रिरा दिवो विदधेरे सन्तु देवाः प्रमेविभिक्वाम् अविदन्महीषाम् धेनुम् चरन्तिम् प्रयुतामगोः पाम् सद्यश्चिद्यादुदुहे भूरिहासेरिन्द्रस्तदग्निः परितारो अस्याः इन्द्रः सुपूषा वृषणा सुहस्ताः दिवो नः प्रीताः शयन्तु दुह्रे विश्वे यदस्याम् प्रणयन्त देवाः याजापयो वृष्ण इच्छन्ति शक्तिर्नपस्यन्तिर्जानते गर्भमस्मिन् अच्छाः पुत्रम् धेनवो बापशानामहश्चरन्ति विभ्रतम् वपूंषे रक्षाः विवक्मिलोदसी सुमेके इवा मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शदा यदत्राः जाते ये जिह्वा मधुमती सुमेधा अग्ने ए देवे शूच्यत उरुची तयेहविश्वाङ् अवसे यदत्रा नासा आदय पायया आचमधूनि याते ए अग्ने पर्वतस्येव रापीपयद्देवचित्रा स्मभ्यम् प्रमतिम् जातवेदोपसोरास्वसुमतिम् विश्वजन्याम् धेनुः प्रत्नस्य काम्यन्दुहानान्तः पुत्रश्च रतिदक्षिणायाः आद्योतनिम् वहति शुभ्रया मोषस स्तोमो अश्विनाः वजीगः सुयुग्वहन्ति प्रतिवामृते नोर्धा भवन्ति रे धामस्पद्विपणेर्मनीषाम् दिवोरवस्त्रक्रमायातमर्वाक सुयुग्भिरश्वैः सुलतारथे नतस्राविमम् शृणुतम् श्लोकमद्रेः किमङ्गवाम् प्रत्यवर्तिम् गमिष्ठाहुर्विप्रासो अश्विना पुराजाः आमन्ये धामागतम् कच्चिदे वैर्विश्वे जनासो अश्विना हवन्ते इमा हि वाङ्गोरुजिकामधोनिप्रमित्रासो नतुरुस्रो अग्रे तिरः पुरोजिलक्श्मिनारणां स्याङ्गोषो वाहम् अथवा नाजनेषु हेहया तम् पृथिभिर्देवयानैरदस्राः विमे वां मधूनाम् पुराणमोकः सख्यम् शिवम् वाहम् युवोर्नराद्रविनञ्जन्धाम्याः पुनः कृण्वानाः सख्या शिवानि मध्वाः मदेमसहनुसमानाः अश्विना वाजुनाः युवम् सुदक्षा नियुद्भ्यश्च सजोषसा युवाना नासत्यातिरो अन्युषाणा सोमम् पिबतमस्रिधाः सुदानो अश्विना परिवामिषः पुरोचीरे युर्गेर्भिर्यतमाना अमृद्ध्राः तः परिद्या वा पृथिवी याति सद्यः अश्विनामधृषत्तमो युवाकुः सोमस्तम्पातमागतम् दुरोणे रथो हवाम्भूरिवर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः मित्रो जनान् यातयति ब्रुवाणो मित्रोदाधारपृथिवीमुतद्याम् मित्रः कृष्टिरनिमिषाभिचष्टे मित्राय हव्यङ्घृतवज्जुहोत प्रसमित्रमत्तोः अस्तु प्रयस्वान्यस्त आदित्यशिक्षति व्रतेन न हन्यते न जीयते त्वोतो नैन मह्मोः अश्नोत्यन्तितो न दूरात् अनमीवासलिलयामदम् गोमितज्ज्ञ वो बहिमन्ना पृथिव्याः आदित्यस्य व्रतमुपक्षियन्तो वयम् मित्रस्य सुमतौ स्याम अयम् मित्रो नमस्य सुषेवो राजा सुक्षत्रोऽजनिष्टवेदाः तस्य वयम् सुमतो यज्ञि यस्यापि भद्रेऽसौ मनसे स्याम महाङ्गादित्यो नमसोपसद्यो यातयज्जनो गृणते सुषेवाः तस्मा एतत्पन्यतमाजदुष्टमग्नौ मित्राय हविराजुहोता मित्रस्य दर्षणीधृतो भो देवस्य स नसि ज्युम्नम् चित्रश्रवस्तमम् अभियोमहिनादिमम् मित्रो बभूव सप्रथाः अभिश्रवोभिः पृथिवीम् मित्राय पञ्चजेमिरेचना अभिष्टिशमसे स देवान् विश्वान्विभर्ति मित्रो देवेष्वाजुषुजनाय वृत्तपर्षिषे इश इष्टव्रताकः इहेह वो मनसा बन्धुता नर उषिजो जग्मुरभिता निवेदसा याभिर्वमायाभिः प्रतिज्योतिमर्पसः सौधम् वना यज्ञियम् भागमानशा याभिश्चेभिश्चमसाम् अपिंशतययाधिया गामरिणीतजर्मणः येन हे मनसा निरतक्षतते न ते भक्तमुभवः समानशा इन्द्रस्य भवः समानशुर्म अपसोदधन्विरे सौधन् वनासो अमृतत्वमेदिरे विश्वे शमेभिः सुकृतः सुकृत्ययाः इन्द्रेणयाथ सरथम् सुते स चाङ्गथोपशानाम् भवथा सह श्रिया नवः प्रतिमै सुकृतानि वा वीर्याणि च इन्द्ररुभुभिर्वाजवद्भिः समक्षितम् सुतं सो ममावृषस्वागृहस्त्योः धियेषितो मघवन्दाशुषो गृहेऽसौ धन्वनेभिः सह मत्स्वादृभिः इन्द्ररुभुवान् वाजवान् मत्स्वे हनोऽस्मिन् सवले शत्या पुरुस्तुता इमादितुभ्यम् स्वस राण्येमिरे व्रता देवानाम् मनुषश्च धर्मभिः इन्द्रलभुभिर्वाजिभिर्वाजयम् निरस्तोमञ्जरितुरुपयाहि यज्ञम् भिर शतङ्केतेऽभिषिरेऽभिजवे सहस्रणीथो अध्वरस्य होमनि उषो वाजे न वाजिनिप्रचेतास्तोमञ्जुषस्व गृणतो मघोनि पुराणीरे पुरम् धिरनूरतञ्चलसि विश्वमारे उषो देव्यमर्त्या विभाहि चन्द्ररथा सोताः ईरयन्ति आत्त्वा वन्तु सुयमाः सोऽश्वाहिरण्यवर्णाम् पृथुपादसो ये उषः प्रतीचीभुवनानि विश्वोर्ध्वातिष्ठस्य मृतस्य केतुः समानमर्थम् चरणीयमाना चक्रमिवनम् यस्यावमृत्सा अपस्यो मे वचिन्वते मकोऽन्युषायाः तिस्वसरस्य पत्नी स्वा अर्जनन्ति सुभगाः सुतम् सा अन्ताः दिवः पप्रथाः पृथिव्याः अच्छा वो देवी मुषसम् विभाती्रमो भरद्भन्दमसा सुभृत्तिम् ऊर्ध्वम् वधुधा दिविपायो अश्रेत्प्ररोचनारुरुचेरण्वसन्नृक् वृतापरे दिवो अर्कैरवोऽध्या रेवतीरोदसी चित्रमस्था आयतीमग्न उषसम् विभाते वाममेः शिद्रविणम् भिक्षमाणः वृतस्य बुद्ध उषसा आविषण्यन्वृषाः मही रोदसी आविवेश महे मित्रस्य वरुणस्य माया चन्द्रेव भानुम् विदधे पुरुत्रा इमा उवाम् भ्रमयो मन्यमाना युवाव तेन तुज्याः अभूमन् वा अत्यदिन्द्रावरुणायशो वाञ्येन स्मासिनम् भरतः सखिभ्यः अयमु वाम् पुरतमो रयि यन्छश्वश्वत्तममवसेजोहवीति स दोषादिन्द्रावरुणा मरुद्भिर्दि बृहस्पति ऋषस्वनो हव्यानि विश्वदेव्या रास्वरत्नानि आशुषे शुचिमर्कैर्बृहस्पतिमद्धरेषु नमस्यत अनान्यो जाचके ऋषभञ्जर्षलीनाम् विश्वरोपमनाभ्यम् बृहस्पतिम् वरेण्यम् इयन्ते भूषण्णाघणे सुस्तुतिर्दे वनव्यसे अस्माभ्यस्तुभ्यम् शस्यते ताञ्जुषस्वगिरम् मम वाजयन्ति मवाधियम् वधोजुरिवयोषणाम् यो विश्वाभि विपश्यति भुवना सम् च पश्यति स नः पूषापिताभुवत् तत्स भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् देवस्य स पितुर्वजम् ध्या भगस्य रातिमीमहे देवन्नरः स पितारम् विप्राः यज्ञैः सुवृत्तिभिः नमस्यन्ति धियेषिताः सोमो जिगादिकातुमिद्देवानामेति निष्कृतम् कृतस्य योनिमासदम् सोमो अस्मभ्यम् द्विपदे चतुष्पदे च पशवे अनमीवा इषस्करत् अस्माकमायुर्वर्धयन्नभिमाती आ नो निद्रा वरुणाघृतैर्गव्योतिमुक्षतम् मध्वारजाहंसि सुक्रतो वरुषम् सा आ नमो वृथा मह्ना दक्षस्य राजथः द्राहिष्ठाभिशुचिम् व्रता दृणाना चमदग्निना यो नाृतस्य शीततम् पातम् सोममृता वृथा तामुह्यग्ने सदमित्समन्यवाह विश्वेश्वरविरूपाक्षविश्वरूपसदाशिव शरणम् भवभूतेश करुणाकरशङ्कर हरशम्भो महादेव विश्वेशामलवल्लभा शिवशङ्करसर्वात्मन्नीलकण्ठनमोऽस्तुते मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे अमृतेशाय सर्वाय महादेवाय नमः उग्राजोग्राखनाशाय भीमाय भयहारिणे ईशानायनवस्तुभ्यम् पशूनाम् पतये नमः दशसप्त नामानि मण्डलान् तेषु यः पठे स शिवस्य पदम् गत्वा शिवलोके महीयते नास्ति मृत्युभयम् तस्य पापलोगादि किञ्चन यज्ञेशाच्युतगोविन्दमाधवानन्दकेशव कृष्णविष्णो ऋषिकेशवासुदेव नमोऽस्तुते कृष्णाय गोपि नाथा जचक्रिणे रुक्मिणीशाय गोपाय गोविन्दाय नमो नमः साक्षान्मूलप्रमाणाय विष्णोरमिततेजसे आद्याय सर्ववेदानाम् ऋग्वेदाय नमो नमः हरिहर शिवशङ्कर वामन वासुदेव विश्वेश्वराय नमः हरिः ॐ श्रीगुरुभ्यो नमः हरि ओम् ेवमरीर इति कृत्वारि अमर्त्यञ्यतदमर्थेष्व देवमादे व्यञ्जन तत्प्रचेतसं विश्वमादे वञ्जन तत्प्रचेतसं सभ्रातरम् वरुणमग्नामवृत्स्वदेवाङ्गच्छा सुमती यज्ञमनसञ्ज्येष्ठञ् यज्ञमनसम् ृतावाहानमादित्यञ्जर्षणेधृतम् राजानम् जर्षणेधृतम् सखे सखायमभ्यापवृत्स्वाशन्नशक्रम् वृथ्ये परम् ह्यास्मभ्यं दस्मरम् ह्याः अग्ने मृणीकविरुणे सता विजो मरुत्सु विश्वभानुशो तोकाय तुजेषु शुचानशङ्कृध्यस्तभ्यन्द स्मशङ्कृधे पन्नो अग्ने वरुणस्य विद्वाम् देवस्य हेडोपयासि श्रेष्ठाः यजिष्ठो वह्नितमश्रोषुता नो विश्वाद्वेषाम् चिक्रममुयस्मद सत्पन्नो अग्ने ममो भवतीनेधिष्ठो अस्या उषसोऽभ्युष्टौ अवयक्ष्मणो वरुणमृगाणोऽः मृळीकम् सुभवो नेः अस्य श्रेष्ठाः सुभगस्य सन्दृर्देवस्य चित्ततमावृत्येषु श्रुतिश्रुतन्नतप्तमज्ञायास्पार्हादेवस्य मम्मनेऽवधेनोः त्रिलस्य तापरमासन्ति श्रुत्या स्पार्हादेवस्य जिनिमान्यग्नेः अनन्ते अन्तः परिवीतः आगाच्छति शुक्रो अर्योरोरुतानः स दूतो विश्वे दविषष्टिसद्माहोता हिरण्यरथोरम् सुजिह्वः रोहित स्वोपपुष्यो विभावासदा रः पितुमतीव संसत् स चेतयन्मनुषो यज्ञवन् दुः प्रतम् मह्यानशनया नयन्ति सक्षेत्यस्य तुर्याः सुसाधन् देवो मत्तस्य स निमा वा स्वनो अव्यर्नयतु प्रजानन्नच्छारत्नम् देवभक्तम् यदस्या यद्विश्वे अमृता अकृन् वन्द्योष्पिता जनिता सत्यमुक्षन् अपादशीर्षागुहमा नो अन्ता यो युवा नो वृषभस्य नीले प्रशर्ध आर्तप्रथमम् विपन्यामृतस्य यो न वृषभस्य नीले स्फालो युवापपुष्यो विभावाः सप्तप्रियासो जनयन्तवृष्णे अस्माकमत्र पितरो मनुष्याः अभिप्रसे दुरतमाः अष्टौम् रजा सुगाः भवे अन्तरुदुस्राः जन्मुषसो हुवानाः ते मर्म्रज तदर्वांसोरद्रिन्दतेषामन्ये अभितो विवोचन् पष्पयन्त्रासो अभिकारमर्चन् विदन्त ज्योतिश्च कृपन्त धीभिः ते गौ यथा मनसा दृद्धमुद्धङ्गाये पानम् परिषन्तमद्रिम् दृह्णन्नरोवच सादैव्ये नौ रजङ्गो मन्दमुषिजोऽपि ते मन्वतः प्रथमम् नामधेनोऽस्त्रिः सप्तमातुः परमाणि विन्दन् तज्जा आदतीरभ्यनोषदौरा आविर्भवद ऋणैर्यशसागोः नेषत्तमो दुधितम्रोच तद्यौरुद्धेव्या उषसोः भातुरत्ता आसूर्यो आदित्पश्चाबुधाना व्यख्यन्नादिद्रत्नम् धारयन् तद्विभक्तम् विश्वे विश्वाः सुदुर्याः सुधेवामित्रधियेव ऋणसत्यमस्तु अर्चाः वोचेयशुचारमग्निम्भोतारम् विश्वभरसंयजिष्ठम् शुशुचोधो अतृणन्नकमामन्धोरपूतम् परिषितम् विश्वे एषा मदितिर्यज्ञियानाम् विश्वे एषा मदिथिर्मानुषाणाम् अग्निर्देवा रामव आवृणानः भवतु जातवेदाः यो मर्त्येष्वमृतवाह देवो देवेश्वरतिर्निधायि होतारिलिष्ठो मह्नासुजध्यैः अव्यैरग्निर्मनुषैरजध्यै इह त्वम् सोऽनो सहसो नो, सो नो अद्य जातो जाताम् उभयाम् अन्तरग्ने लूतईयसे युजु जानरुष्वरुजुमुष्कान् वृषणः शुक्रांश्च अत्या वृथस्नो रोहिता घृतस्नो ऋतस्य मन्ये मनसा जविष्ठा अन्तरीयसे अरुषायुजानो जुष्मांश्च देवान्विषा चमत्तान् अर्यमणम् वरुणम् ऋत्रमे एषाविन्द्राविष्णो मरुतो अश्विनोता स्वश्वो अग्ने सुरथः सुराधा ये दुवः जनाय गोमा अग्नेमिमा अश्विजज्ञो इडा आवाम् एषो मयुरः प्रजावाम् दीर्घो रजःप्रथुबुद्धः सभावान् यस्तभरत्सिष्विदानो मूर्धानम् वा ततपते त्वाया भुवस्तस्य सुतवाङ्ः पायुरग्ने विश्वस्मात् सेमघायत उरुष्या यस्ते फलाल न्यते चिदन्नम् निशिषन् मन्द्रमतिथिमुदीरत् आदे एवयुरिदधते दुरोणे तस्मिन् रयुध्रुवो अस्तुतास्वान् यस्त्वा दोषाय उषसि प्रशंसा प्रियम् वा त्ता कृणवते हविष्मान् अश्वो न स्वेदमाहेम्यापान्धमम् हसःपरोदाश्वांसम् यस्तुभ्यामग्ने अमृताः यथा शब्दुवस्ते कृणवते यतश्रुत न स राजाशमानो शा वियोषन्नैनवम् हः परिवरदघायोः यस्य त्वमग्ने अद्भरञ्जुजोषो देवो मत्तस्य सुजितम् मृगाणः प्रीतेत सद्धोऽत्रासाय विष्ठासाहमयस्य विधतो वृथा साः चित्तिमचित्तिञ्चिन वद्दि विद्वान् पृष्ठेव पीता रुचिना चमसान् राजेत नस्वपत्यायते वरिति तरा स्वादितिमुष्या कवयो दब्धानि धारयन्तो दुर्याः सायोः अतस्तम् दृश्याम् अग्न एतान् प्रभृः पश्येरद्भुताम् अर्य एवैः मग्ने वाघते सुप्रणीति सुतसोमाय विधते जभिष्ठा रत्नम् भरशमानाय हृष्णे पृथश्चन्द्रमवसे च ऋषनिप्राः अथा आहयद्वयमग्ने त्वाया पद्भरहस्तेभिश्च क्रमातनूभिः रथन्न क्रन्तो अपसा भुरिजोये मुः सुद्याशुषाणाः अथा मातुरुषसः प्रथमा वेदसूदृन् जिवस्पुत्रा अङ्गिरसोपवेमाद्रिम् अयथा नः पितरः पराः सत्नासो अग्नऋतमाः सुषाणाः शुचीलन्देधितिमुक्थसा सहाक्षामाः भिन्दन्तो अरुणेरपौरण् सुकर्माणः सुरुचो देभजन्तो यौ सुजन्तो अग्निम्बवृथन्त इन्द्रमूर्मम् परिषदन्तो अग्न आयुथे वक्षुमतिदेवानां यज निमान्त्युग्राञ्चिरूपशीरकृते चिदर्य उपरस्यायोः अकर्मते स्वपसो अभूमरतमवस्रन्नसो विभातीः अनू न अग्निम्बुरुता सुश्चन्द्रम् देवस्य मनुमृजतश्चारुचक्षुः एकाते अग्न उचथानि भेदो वोचामकमयेताजुषस्व उच्छोचस्वस्य सो नो महो राजः पुरुवारप्रन्धि आवो राजानमधरस्य रुद्रम्भोतारम् सत्यजम् रोदस्योः अग्निम् पुरातनयित्नो रचित्ताद्धिरण्यरूपमवसे कृणुध्वम् अजम् योनिश्च क्रमायम् भजन्ते ये जाये भवपत्यविशति सुवासाः अर्वाचीनः परिवीतो ऋषेः देवा उतस्तपाकप्रतीचीः आशृण्वते अदृपिताय मन्मृचक्षसे सुमृलीकाय भेधः देवायशस्तिमृताः यशंसग्रावेसोताः मधुसुद्यमीले तञ्चिन्नश्शम्याः अग्ने अस्या ऋतस्य बोध्यरतचित्स्वाधीः कदा च उक्ता स धमाद्यानि कदा भवन्ति सख्या गृहेते कथा हतद्वरुणायत्तमग्ने कथा दिवे कथा कन्न आगाः तथावित्राय मीढुषे पृथिव्यै प्रवःकदर्वयम्नेकद्भगाय तद्धिष्ण्यासुवृथसानो अग्ने कद्वाताय प्रतपसे शुभय्ये परिज्नेनासत्यायच्छे प्रवःकलग्ने रुद्राय मृघ्ने कथा महे पुष्टिम्भराय पोष्णे कद्रुद्राय सुमखाय हृदे तद्विष्णवगुरुगाया जरेतोऽग्रवःकलग्नेश्व बृहती कथाश्रद्धाय मरुताः मृताय कथा सूरे बृहते पृच्छ्यमानः प्रतिभ्रवोदितयेतुराय साधाः द्विवोजाः तवेदश्चिचित्वान् ऋतेन ऋतम् नियतमीण आगो रामा स ऋतेन हिष्माः वृषभश्चिदग्नः पुमाः अग्निः पयसा वृष्ट्येनास्पन्दमानो अचरद्वजोधा वृषाः शुक्रम् दुदु हे वृष्टिरोधाः ऋतेनाद्रिङ्ग्यसम्भिदन्तः समङ्गिरसोऽनवन्तकोभिः सुनन्नरः परिषदन् वाचीनसर्गेषु प्रस्तुभानः प्रसदमित्सविधन्युः मागस्य यक्षम् स तमिद्धुरो गामा वेशस्य प्रमिनतो मापेः मा रक्षो मा मा मा मा मा महि एभिर्भव सुमना अग्ने अर्कैरिमां स्पृशमन्नभिशूरवाजा उत ब्रह्माण्यङ्गिरो जुषस्पृशन्ते शस्थिर्देववाहताजरेत एता विश्वा विदुषेतुभ्यम् वेधोनीथान्यग्ने्यावचाहंसि युवचना कव एकाद्यान्यशंसिभिर्विप्र उक्तैः स्वपादः प्रसिद्धिर्नवृथे याहिराजे वामवाङ्गिन तृष्वेमनुप्रसिन्द्रो नानोऽस्ताः सिविध्य रक्षसस्तपिष्ठैः तव भ्रमास आशुयापतन्त्यनुस्पृशृशताशोऽशुचानः तपोवंश्यज्ञे जुह्वाः पतङ्गानसन्दितोऽपिसृजविश्वगुन्ताः प्रतिस्पशोऽपिसृजतोर्णितमो भवाः पायुर्विशो अस्या यो नो दूरे अखशम् सोऽयो अन्त्यग्नेष्टेऽ्यथिरातधर्षेत उदग्ने तिष्ठप्रत्यातनुष्वन्या अमित्रागोषतात्तिग्महेते यो नो अरातिम् समिधानचक्रे नीचातम् धक्ष्यत सन्न शुष्कम् ऊर्ध्वो भव प्रतिविध्याद्यस्मदा विष्णुणस्वदैव्या अन्यग्ने अवस्थिरातनुहिया तुणे हि शक्रून् सते एजानाति सुमीयविष्ठज एव ते ब्रह्मणे गातुमैरत् विश्वा अन्यस्मै सुदिनानिराजोद्युम्नान्यर्यो विदुरो अभिद्योत् सेदग्ने अस्तु सुभगः सुरानुर्यस्वानित्येन हविषाज उक्थैः विप्रि एष आयुषि दुरोणे सुदिनासासदिष्टिः अर्चा आमिते मतिङ्गोऽ शर्वात् सन्दे पापाता चरतामियङ्गीः सुरथा स्वासुरथाः मर्जयेमास्मे क्षत्राणि धारयेरनुद्योन् इह त्वा भूर्या चरेतुपत्नम् दोषामस्तर्दीदिवाम् समनुद्योन् क्रीडन्तस्त्वा सुमनसः सपे माभिद्युम्नातस्थिवाम् सोजनानाम् यस्ता श्वश्व हिरण्यो अग्न उपयाति वसुमतारुधे तस्य त्रातापवसितस्य सखायस्थ आदिथ्यमाहानुषज्जुजोषत् महोरुजामि बन्धुतापचोऽभिस्तन्माः पितुर्गोतमादन्वियाय तन्नो अस्य वचषष्ठशुक्रतोदमोहनाः अश्वप्नस्तरणयः सुषेवातन्द्रासोभृका अश्रमिष्ठाः ते पायवः सभ्र्यञ्चो निषद्याग्नेतवनः पान्तमूर ये पाजवो ओ माम तेजन्ते अग्ने पश्यन्तो अन्धन्तु वितादरक्षन् रक्षतान् सुकृतो अ विश्ववे एतादिप्सन्त इद्रिपभो नाह देभुः आयाते ए अग्ने समिधा विधेमप्रति स्तोमम् शस्यमानङ्गृभाय दहाशसो रक्षसः पाह्या अस्मान् द्रुहो निदो मित्रमहो अपद्या इति तृतीयाष्टके चतुर्थोऽध्यायः